बालमोदिनी शिवभक्ता पूतवती लेखकः ज्ञानशेश्वरः त मिलुनाडुराज्ये कारैकल् नगरे धनदत्तः नाम कश्चन वणिक् आसीत् तस्य पुत्री पूतवती इति आ बाल्यात् एव सा शिवभक्ता प्राप्तयौवनां ताम देवदत्तनामकाय वणिक्पुत्राय दत्तवान् धनदत्तः कदाचित् देवदत्तस्य आपणम् आगतः कश्चन आम्रफलद्वयम् दत्तवान् देवदत्तः तत् फलद्वयं गृहं प्रति प्रेषितवान् पूतवती तदुभयं पूजागृहे स्थापितवती तावता कश्चन सन्यासी आगत्य भवति भिक्षान्देहि इति अवदत् पूतवती तस्मै एकम् आम्रफलं दत् मध्याह्ने देवदत्तः भोजनावसरे आम्रफलम् अखादत् तत् रुचिपूर्णम् आसीत् अतः सः पत्नीम् आदिशत् अन्यदपि फलम् आनय इति एतस्य श्रवणात् किङ्कर्तव्यताविमूढा पूतवती पूजागृहं गत्वा भगवन्तं प्रार्थितवती भगवन् मया फलं सन्यासिने दत्तम् इति ज्ञायेत् चेत् मम पतिः कुपितः भवेत् अतः कृपया एकं फलं देहि इति भगवान् तस्मै एकं आम्रफलम् अयच्छत् तत् आनिय सा पूर्व यत् खादितं ततोऽपि मधुरम् आसीत् एतत् अतः देवदत्तः संदेहेन अपृच्छत् एतत् कुतः प्राप्तं त्वया इति भगवता दत्तम् इति भीत्या एव अवदत् पूतवती किं भगवान् फलं दद्यात् एवं तर्हि अपरं फलम् आनय इति आज्ञापितवान् पतिः भीता पूतवती पुनरपि पूजागृहं गत्वा भगवन्तं प्रार्थितवती भगवान् अन्यत् फलम् अयच्छत् तत् पत्ये दत्तवती पूतवती एतत् दृष्टवान् देवदत्तः एषा मम पत्नीना अपि काचित् देवता स्यात् इति चिन्तयित्वा तया वासं कर्तुम् अनिच्छन् गृहात् निर्गत्य विदेशं गत्वा अन्यां महिलां परिणीय एकां पुत्रीम् अपि प्राप्तवान् एतस्मात् दुःखिता पूतवती तपसा शिवं सन्तोष्य तस्य अनुग्रहं प्राप्तवती शिवः ताम् अम्ब इति शब्देन सम्बोधितवान् ततः सः तिरुवडाळ्काडु ग्रामं आगत्य तत्रैव न्यवसत् अतः सा कारैकल अम्बा इति ख्याता अभवत् इति कथा सम्पूर्णम्